गणेशपुराणं क्रीडाखण्डम् अध्ययम् हण्ड्रेड् अण्ड् फ़ोर्टिफैव् परेण्य उवाच भगवन्नारदो मह्यं तव नानाविभूतयः उक्तवां स्ता अहं वेद न सर्वात् सोऽपि वेत्तिताः त्वमेव तत्त्वतः सर्वा वेत्सिताध्विरदानना निजं रूपमिदानीं व्यापकं चारुदर्शय श्रीगजानन उवाच एकस्मिन्मयि पश्यत्वं त्वं विश्वमेतच्चराचरं दिव्यानि पुरा निकेन नचित ज्ञानचक्षुरकं तेद्य सृजामि स्वप्रभावतः चर्मचक्षुः कथं पश्येन्मां विभुम् अजमव्ययं व्यास उवाच ततो राजावरेण्यस दिव्यचक्षुरवैक्षत ईशिदुःपरमरूपं गजास्य महाद्भुतम् असङ्ख्यवक्त्रं ललितमसङ्ख्याङ्घ्रिकरं महत् अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्रजम् असङ्ख्यनयनं कोटिसूर्यरश्मिधृता युधम् तद्वर्षाणि त्रयो लोकाद्रष्टास्तेन पृथग्विधाः दृष्ट्वैश्वरं परं रूपं प्रणम्यस नृपोऽ ब्रवीद वरेण्य उवाच वीक्षेऽहं तव देहेऽस्मिन् देवान् ऋषिगणान् पितृन् पादालानां समुद्राणां द्वीपानां चैव भूभृताम् वनर्षीणां सप्तकं च नानार्धसङ्कुलं विभो भुवोऽन्तरिक्षं स्वर्गाश्च मनुष्यो रगराक्षसान् ब्रह्मविष्णो महेशेन्द्रान् देवाञ्जन्तूनने कथा अनाद्यनन्दं लोगादिमनन्दभुजशीर्षकं प्रदीप्तानलसङ्काशमप्रमेयं पुरातनं किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहं येदादृश्यं च वीक्षे त्वां विशालवक्षसंप्रभुं सुरविद्याधरैर्यक्षै किन्नरैर्मुनिमानुषैः नृत्यग्भिराप्सरोभिश्च गन्धर्वैर्गानतत्परैः वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुदायुधैः सेव्यमानं महाभक््या वीक्ष्यमाणं सुविस्मितैः वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरं पातालानि दिशस्वर्गान् भुवं व्याप्याखिलं स्थितं भीता लोकास्तथा चाहमेवं त्वां वीक्ष्यरूपिणम् नानादंष्ट्रा करालं च नानाविद्या विशारदं प्रलयानलदीप्तास्यं जटिलं च नभस्पृशं दृष्ट्वा गणेशते रूपमहं भ्रान्त इवा भवं देवामनुष्या नागाध्याखिलास्त त्वदुदरेशयाः नानायोनि भुजश्चान्दे त्वय्येव प्रविशन्ति च अब्धेरुत्पद्यमानास्ते यथा जीमूदबिन्दवः त्वमिन्द्रोऽग्निर्यमश्चैव निरृदिर्वरुणोमरुद्गुह्यकेशश्च तदेशानसोमसूर्योऽखिलं जगत नमामि जगत कुरु प्रसादं कुरुमेधुना निजं रूपं सौम्यं यत्पूर्वमीक्षितं को वेदलीलास्ते भूमन् क्रियमाणा निजेच्छया अनुग्रहान्मया दृष्टमैश्वरं रूपमीदृश्यं ज्ञानचक्षुर्यदो दत्तं प्रसन्नेन त्वया मया श्रीगजानन उवाच नेदं रूपं महाबाहो मम सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहान् चतुर्वेदार्थतत्त्वज्ञाश्चतुश्शास्त्रविशारदाः यज्ञदानतपोनिष्ठानमे रूपं विदन्तिते। ते शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावदः त्यज भीतिं च मोहं च पश्य मां सौम्यरूपिणम् मद्भक्तो मत्परः सर्वसङ्गहीनो मदर्थकृत गर्भासु शास्त्रे। महा श्रीमदेशीतासूपनिषदर्भासु योगमताेमदादिश्रीम्न्महाणे उतरखंडे बालचरिदे श्री गजानन वरेण्य संवाद विश्वरूपवीक्षणयोगो योगो नाम अष्टमोऽध्यायः ओ